श्रीरामस्तोत्राणि श्रीरामचन्द्रध्यानम् कालाम्भोधरकान्तिकान्तमनिषं वीरासनाध्यासिनम् मुद्रां ज्ञानमयिं दधानपरं हस्ताम्बुजं जानुनि ीता पार्श्वगतां सरोरुहकरा विद्युन्यभां राघवम् पश्यन्तं मुकुतां गदादिविधा कल्पोज्वलाङ्गं भजे श्रीरामचन्द्रप्रणामः माय रामभद्राय रामचन्द्राय वेधसे रघुनाथाय नाथाय सीताय पतये नमः श्रीरामरक्षास्तोत्रम् अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिकऋषिः श्रीसीतारामचन्द्रो देवताम् अनुष्टुप् छन्दः सीताशक्तिः श्रीहनुमानकिलकम् सी श्रीरामचन्द्रप्रत्यर्थे रामरक्षास्तोतृजपे विनियोगः अथ ध्यानं ध्याये दाजान बाहुम् चितसरधनुषं बद्धपद्मासनस्थं पीतं वासोवसानं नवकमलजलपस्पर्धिनेत्रं प्रचन्नं। वामाङ्कारोढसेता मुखकमलभिल्लोचनं नीरधावम् नालालङ्कारदीप्तम् ददतमुर्जटामण्डलं रामचन्द्रम् इति ध्यानं चरितं रघुनाथस्य शतकोटिप्रविस्तरम् एकैकमक्षरं पुंसां महापातकनाशनं ध्यात्वा निलोत्पलश्यामम् रामं जीवलोचनं जानकीलक्ष्मणोपेतं जता मुकुटमण्डितम् शचितूर्णधनुर्बाण पाणिनक्तं चरान्तकम् सुलीलया जगत्रातुम् आविर्भूतमजं विभुम् रामरक्षां पठेत् प्राज्ञः पापग्निं सर्वकामदां शिरो मे राघव पातु माभालं दशरथात्मया कौसल्यो कौसल्येयो दृशो पातु विश्वामित्र घ्राणं पातु मखत्राता मुखं सोमे त्रिवत्सर जिह्वाविद्यानिधे पातु कण्ठं भरतवन्दिता स्कन्धो दिव्यायुधपातु भुजौ भग्नेशकार्मुक करौ सीतापते पातु हृदयं जामाग्नजी मध्यं पातु खरद्वंसे नाभिं जाम्बवदाश्रयः सुग्रीवे सकटिपातु शक्ति हनुमत्प्रभो गुरुरभुत्तमः पातु रक्षकुलविनाशपीन् जनुनिषेतु कृपातु जङ्घे दशमुखान्तक आदौ विभीषणशिदपातु रामोखिलं वपुः एतां राम्बलोपेतां रक्षायां यः स्वतिपठे सचिरायु सुखे पुत्रे विजये विनये भवेत् पातालभूतल व्योमचारिणः छद्मचारिण न द्रष्टुमपि शक्तास्ते रक्षितं राम नाम वीन् रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दते जगज्जयित्रैकमन्त्रेण रामनाम्नाभिरक्षितम् यः कण्ठे धारये तस्य चरस्था सर्वसिद्धय वज्रपञ्जरनामेदं यो रामकोचं अव्याहताज्ञः सर्वत्र दवते जयमङ्गलम् आदिष्टावान् यथा स्वप्ने रामरक्षमिमां भरः तथा लिखितवान् प्राप्त प्रबुद्धो बुधकौशिकः आरामः कल्पवृक्षाणाम् राम सकलापदाम् अभिरामस्त्रिलोकानां राम श्रीमान्सनप्रभो शरणौ रूपसम्पन्नौ सुकुमारौ महाबलौ पुण्डरीकविशालाक्षौ चीरकृष्णजिनाम्बरौ फलमूलाशिनौ दान्तौ पसौ ब्रह्मचारिणौ पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ शरण्यो सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् रक्षकुल् निहन्तारौ त्रायतां नोरभुत्तमौ आन्तस्जधनुस्सामिपुष शिषावक्षया सुनिसङ्गसंज्ञौ रक्षणाय मम रामलक्ष्मणाम् अग्रतपति सदैव गच्छतां सन्नद्धकौचिखङ्गे चापमानधरो युवां गच्छन् मनोरथोऽस्माकं राम पातु स लक्ष्मणः रामो दशरथेसुरो लक्ष्मणानो चरो बली काकुश्च पुरुष पुण्यं कौसल्येयो रघुत्तमः वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः जानकैवल्लभः श्रीमान् अप्रमेयपराक्रम इत्येतानि जपे नित्यं यद्भक्तः श्रद्धयान्विता अश्वमेधादिकं पुण्यम् सम्प्राप्नोति न संशयः रामम् दुर्वादलश्यामम् पद्माक्षम् पीतवाससं सुवन्ति नामभिर्दिव्यै न ते संसारिणो नरामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं। कापुस्थं करुणाणवं गुणनिधिं विप्रप्रियं धार्मिकं। राजेन्द्रं सत्यसंधं दशरथतनयं श्यामरं शान्तमूर्तिम् वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिं रामाय रामभद्राय रामचन्द्राय वेधसे रघुनाथाय नाथाय सीताया पतये नमः श्रीराम राम रघुनन्दन राम राम, राम श्रीराम राम भरताग्रज राम राम श्रीराम रामरणकर्तश राम राम श्रीराम रामचरणं भव राम राम श्रीरामचन्द्रचरणौ मनसा स्मरामि श्रीरामचन्द्रचरणौ वचसा गृणामि श्रीरामचन्द्रचरणौ तिरसारणमामि श्रीरामचन्द्रचरणौ शरणं प्रपद्ये माता रामो मत्पता रामचन्द्र स्वामी रामो मत्सखा रामचन्द्र सर्वस्वं मे रामचन्द्रो दयालुनाण्यं जानेनैव जानेन जाने, जाने दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा पुरतो मारुतिर्यस्य सम्बन्दे रघुनन्दनम् लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् ुण्यरूपं करुणाकनन्तं श्रीरामचन्द्रं शरणं प्रपद्ये मरोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं वातात्मजं वानर्यूतमुख्यं श्रीरामदूतं शरणं प्रपद्ये कुजन्तं राम रामेति मधुरं मधुराक्षरम् आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् आपदामपहर्तारं दातारं सर्वसंपदां लोकाभिरामं श्रीरामम् भूयो भूयो नमाम्यहं भर्जनं भवभेजानां अर्जनं सुखसम्पदार्जनं यमदूतानां राम रामेति गर्जनं रामो राजमणि सदा विजयते रामं रमे सम्भे रामेणाभिहता निशाचर रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलय सदा भवतु मे भो उद्धरय राम रामेति रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं रामनामबरानरें रामनामबरानरे